ङ्कार वेद्य पुरुष पुराण बुद्धेश्च साथी निखिलश्च जंतो यो वेति सर्वं न च यश्च रामकृष्ण परात्मरूपो विराम कृषन् न वेदगम्यो न च योगगम्यो जानै न जापै न तपोभिरुग्रही गेयकदापि हस्तवते नो दयानिधे त्वम् उविरामकृशम् दयानिधेत्वं दयानि त्वम् उविरामकृश मोक्षस्य रूपं तवधाम नित्यं यथा तदाप्नो द्विशोधचेत तथोपदेता किल तत्त्ववेता त्वं विश्वधाता त्वरामकृ म्बेश्वधाता तु विरामकृष्ण बक्रिस्तथासु भ्रमज्ञानमार्गौ प्रदर्शितौ द्वौ भवमुक्तिहेतौ तयोर्गतानां धुवनायकोषु मोक्ष सेतु भुवि राम कृष्ण त्वं मुक् सेतु भुवि रामकृष्ण गस्ति त्वमेका जगतां ददानां पुरा विषते अद्वल्लजेषम् अधुना सितद्व प्रवादिदेव कुविराम कृष्णं प्रवादिदेव कुविराम कृष्णं वर्णाश्रमाच रविः सन्न्यासिनो या न विधुतचेता जायन्तियं यो चमदिष्टपूजायन्ति चमधेतदिष्टहे त्वम् विरामक्रिय तेजोमयं दशीश्वरूपम् को शान्तरथम् परमार्थतत्त्वं संस्पर्शमातृडां समाधिं विधाय सज्जो कुविरामकृश विधाय सद्यो कुविरामकृ रागादिशून्यं तव सौम्यमूर्तिं दृष्ट्वा पुनश्च वदन्नभाजं सारि यदाय जोद्वसत्वम् इहावणो नु विरामकृशन् इहावणो नु विरामक्रीश महाविचित्रं महदाधिकार्यं लप्यधेष्टा नमनाद्यनन्तम् तिनित्यं प्रकृतिस्त्व तद्ब्रह्म सचे भुविरामय कृश तद्ब्रह्म सचे भुविरामय कृश कृशानुबता विविदघचिता संसारिणशाकेतनं तां सम्प्राप्य शान्तिं हि भवन्ति तेषां तं शान्तिदाता कुविरामयिक्रीश सं शान्तिदाता ओविरामयक्रीश षडङ्गयोगो न यत सु ज्ञानाधिकारी नयस्मान् गरीयसे भिरतकलौषात् अपकस्त्वम् पुरामक्रीशन् सद्यापकस्वां मुविरामक्रीश नाकादिलोकं सुखदं च देव्यं सुरं नमैस्व यमहं न याचे श्रीदासने त्वां कृपया स दा वै वसेत याचे उविराम कृशन् वसेत् याचे उविराम कृश जं विष्णु यं ब्रह्मविष्णु गिरिसदेवा गायन्त् गायन् नित्यं तैः प्रार्थितस्त च परावतारो विबाहुधारे ओविमकृश विबाहुधारी ओविराम कृश वन्दे जगद्रे जमखण्डमेकम् वन्दे सुरासे पितपादपीठं वन्दे भवेशं भवरोगवेद्यं तमेव वन्दे तुविरामक्रीश तमेव वन्दे my Griechen to me in heaven